गव्यूतिमात्रादागत्य त्वरितो मातरम् प्रति शोकदुःखपरीतात्मा निः शश्वासो रगो यथा स सुप्तां दृष्ट्वा भ्रातृश्च वसुधातले भृशं शोकपरीतात्मा विललापभृकोदरः अतः कष्टतरं किं नु द्रष्टव्यं यत्पश्यामि मही सुप्तान् भ्रातृनद्यसुमन्दभाक् शयनेषु परार्घ्येषु ये पुरावारणावते नाधिजग्मुस्तदा निद्रां तेऽद्यसुप्तामहीतले स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् स्नुषाम् विचित्रवीर्यस्य भार्याम् पाण्डोर्महात्मनः तथैव चास्मज्जननीम् पुण्डरीकोदरप्रभाम् सुकुमारतरामेणाम् महार्हशयनोचिताम् शयानाम् पश्यताद्येह पृथिव्याम तथोचिताम् धर्मादिन्द्राच्च वाताच्च सुषुवेया सुतानि मान् सेयम् भूमौ परिश्रान्ता शेते प्रासादशायिनी किम् नु दुःखतरम् शक्यम् मया द्रष्टुमतः परम् योऽहमद्य न रव्याघ्रान् पश्यामि भूतले त्रिषु लोकेषु यो राज्यम् धर्म नित्योऽर्हते सोऽयम् भूमौ परिश्रान्तः शेते प्राकृतवत् कथम् अयम् नीलाम्बु दश्यामो शेते प्राकृतवद् भूमौ ततो दुःखतरम् नु किम् अश्विनाविव देवानाम् या विमौ रूपसम्पदा तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः सजावेत सुखं लोके ग्रामद्रुम यवौकजः एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः चैत्यो भवति निर्ज्ञातिरर्चनीय सुपूजितः येषाम् च शूरा ज्ञातयो धर्ममाश्रिताः ते जीवन्ति सुखम् लोके भवन्ति च निरामयाः बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा वयन्तु धृतराष्ट्रेण सपुत्रेण दुरात्मना विवासिता न दग्धाश्च कथञ्चित् दैव तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः कान्दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्